नारदपुराणं पूर्वार्थम् अध्यायं 91 वन् सनत्कुमार उवाच अधवक्ष्ये महेशस्य मन्त्रं सर्वार्थसाधकं यं समाराध्यमनुजो भुक्तिं मुक्तिं च विन्दति हृदयं सभगः सूक्ष्मो लान्दो नन्दान्वितो पञ्चाक्षरो मनुप्रोक्तस्ताराद्योयं षडक्षरः वामदेवी मुनिश्चन्दः पङ्क्तिरीशोऽस्य देवता षड्भिर्वर्णैः षडङ्गानि कुर्यान्मन्त्रेण देशिकः मन्त्रवर्णादिकान्यस्येन्मन्त्रमूर्तिर्यथा क्रमम् तर्जनीमध्ययोरन्द्यानामिकां दुष्टके पुनः तास्युस्तत्पुरुषाखोरभववामेष संज्ञिकाः वक्त्रहृत्पादगुह्येषु निजमूर्धनिताः पुनः प्राज्ञाम्यवारुणोदीच्य मध्यवक्त्रेषु पञ्चसु मन्त्राङ्गानि न्यसेत्पश्चाज्जातियुक्तानि षट्क्रमाद कुर्वेदगोलकन्यासं रक्षायै तदनन्तरं हृदि वक्त्रेऽंसयोरुो कण्ठेनाभौ द्विपार्श्वयोः पृष्टे हृदि तथा मूर्ध्नि वदने नेत्रयोर्नसोः दोपत्सन्धिषु साग्रेषु विन्यसे तदनन्तरं शिरोवदनहृत्कुक्षिसोरुपादद्वये पुनः हृदि वक्त्राम्बुजे टङ्गमृगा भयवरेश्वध वक्त्रां सहृत् सपादोरुजष्टरेषु प्रमाण्यसेद मूलमन्त्रस्य षडवर्णान्यथावद्देशिकोत्तमः मूर्ध्नि भालोदरांसेषु हृदयेताः पुनर्न्यसेद पच्चादनेन मन्त्रेण कुर्वीदव्यापकं सुधीः नमोऽस्त्वनन्तरूपाय ज्योतिर्लिङ्गामृतात्मने चतुर्मूर्तिवपुश्चाया भासिताङ्गाय शम्भवे एवं न्यस्तशरीरोसौ चिन्तयेत्पार्वतीपदिं ध्यायेन्नित्यं महेशानं रौप्य पर्वतसन्निभम् चारुचन्द्रावतं सं च रत्नाकल्पोज्वलाङ्गकं परश्वधवराभिमृगहस्तं शुभाननं पद्मासीनं समं तात्तु स्तुतं सुमनसां गणैः व्याघ्रकृतिं वसानं च विश्वरूपकम् त्रिनेत्रम् पञ्चवक्त्रम् च सर्वभीतिहरम् शिवम् तत्त्वलक्षम् जपेन्मन्त्रम् दीक्षितश्चैव वर्त्मना तावत्सङ्ख्यसहस्राणि जुहुयात्मा यः सै शुभैः तदसिद्धो भवेन्मन्त्रः साधकाभीष्टसिद्धिदः देवं सम्पूजयेत्पीठे वामादिनवशक्तिके वामा, वामा ज्येष्ठा तथा रौद्रिकाली कलपदादिका विकारिण्याह्वया प्रोक्ता बलाद्या विकारिण्यध बलप्रमाधनी दमन्यधा मनोन्मनीदि सम्भोक्ताः शैवपीठस्य शक्तयः नमो भगवते पश्चात् सकलादिवदे तदः गुणात्मशक्तिभक्ताय तदो नन्दाय तत्परं योगपीठात्मने भूयो नमस्तारादिको मनुः अमुना मनुना दद्यादासनं गिरिजापदेः मूर्तिर्मूलेन सङ्कल्प्य तत्रवाह्य यजेच्छिवम् कर्णिकायां यजेन्मूर्तिरीशमीशानदिग्गजम् शुद्धस्फटिकसङ्काश्यं दिक्षु तत्पुरुषादिका पीताम् जनश्वेदरक्ताः प्रधानसदृशायुधाः चतुर्वक्त्रसमायुक्ता यथावक्ताः प्रपूजयेद कोणेश्वर्चन्निवृत्त्याद्यास्तेजोरूपा कलाक्रमाद अङ्गानि केसरस्तानि विघ्नेशान् पन्न्यजेद् अनन्तं सुखनामानं शिवोत्तममनन्तरं एकनेत्रमेकरुद्रं त्रिमूर्तिं तदनन्तरं पश्चाच्चीकण्ठनामानं शिखण्डिनमिति क्रमाद रक्तपीदसिदकृष्णरक्ताञ्जनासिदान् किहीडार्पितबालेन्दून् पद्मस्थान् भूषणान्विदान् त्रिनेत्राञ्चूलवज्रास्त्रचापहस्तान् मनोरमान् उत्तरादि यजेत्पश्चाद् चण्डेश्वरम् पुनः तदो नन्दिमहाकालौ गणेशम् वृषभम् पुनः अधभङ्गिं रिडिं स्कन्दमेधान् पद्मा सनस्थितान् स्वर्णतोयारुणश्याममुक्तेन्दुसितपाडलान् इन्द्रादयस्तदपूज्या वज्राद्यायुध संयुधाः इद्धं देवं सहस्रं नित्यस्यो जपेद सर्वपापविनिर्मुक्तः प्राप्नुयाद्वाञ्छितं श्रियम् द्विसहस्रम् जपन् रोगान्मुच्यते नात्र संशयः त्रिसन्मन्त्रम् जपन् मन्त्रम् दीर्घमायुरवाप्नुयाद सहस्रवृद्धया प्रचपन् सर्वकामानवाप्नुयाद आज्यान्वितैस्थिलैः लक्षमादराद। उत्पादजनितान् क्लेशान् नाशये नात्र संशयः शतलक्षम् जपन् साक्षाचिवो भवति मानवः षडक्षरः शक्तिरुद्धकितोाक्षरो मनुः ऋषिश्चन्दः पुरा प्रोक्तो देवतास्याधुमापतिः अङ्गानि पूर्वमुक्तानि सौम्यमीशं विचिन्तयेत् बन्धुकाभं त्रिनेत्रं च शशिखण्डधरं विभुं स्मेरास्यं स्वकरैशूलं कम्पालं वरदाभये वसन्तं चारुभूपाढ्यं वामोरुस्ताद्रिकन्यया भुजेनाश्लिष्टदेहन्तम् चिन्तयेन्मनस्सा हृदि मनुलक्षं जपेन्मन्त्रं तत्सहस्रं यथा विधि जुहुयान् मान् मधु ससिक्दैरा रघ्वसमिद्वरैः प्रोक्ते पूजयेत्पीठे गन्धपुष्पैरुमापतिम् अङ्गावृतैर् कृले बहिपूज्या कृल्लेखाद्या यथा पुराक् मध्यप्राक् दक्षिणोद्दीच्य पश्चिमेषु विधानतः शूल वृषभाद्याननुक्रमाद शोलटाक्षवलय लसत्करम् अरक्दाकरम् त्रिनयनम् चण्डे शमधपूजयेद चक्र शङ्खाभयाभीष्टकराम् मरकदप्रभाम् दुर्गाम् प्रपूजयेत् सौम्याम् त्रिनेत्राम् चारुभूषणाम् कल्पशाखान्तरे खण्डाम् दधानम् द्वादशे बालार्काभं शिशुं कान्तं षण्मुखं पूजयेत्तदः नन्दितं च यजेत् सौम्यां रत्नभूषणमण्डितं परश्वथवराभीतिडङ्गिनं श्यामविग्रहं पाशाङ्कुशवराभीष्टधारिणं कुङ्गुमप्रभम् विघ्ननायकमभ्यर्चे चन्द्रार्थकृदशेखरम् श्यामं रक्ततोत्पलकरं वां मां कन्यस्तदस्तरं द्विनेत्रं रक्ततवस्त्राढ्यं सेनापतिमधार्चयेद् तदोष्टमादरपूज्य बाह्याद्याप्रोक्तलक्षणाः इन्द्रादिकान् लोकपालान् स्वस्वदिक्षु समर्चयेद वज्रादीनि तदस्त्राणि तद्बहिः प्रमदोर्चयेद एवं यो भजते मन्त्रिदेवं शम्भुमो मापदिं स भवेत् सर्वलोकानां सौभाग्यश्रेयसां पदं सान्त सन्ध्यान्त संयुक्तो बिन्दुभूषितमस्तकः प्रासादाख्यो मनुप्रोक्तो भजतां सर्वसिद्धितः षड् दीर्घयुक्तबीजेन षडङ्गविधिरीरितः षडर्णवत्तु मुन्याद्य प्रोक्ताश्चास्यापि नारद ईशानाद्यन्य सेन्मूर्तिरङ्गुष्ठादिषु देशिकः ईशान्यं तत्पुरुषमघोरं तदनन्तरं वामदेवाह्वयं सद्यो जादबीजं क्रमाद्विदुः उकाराद्यै पञ्च ह्रस्वैर्विलोमांसं युधं च यद् तत्तदङ्गुलिभिर्भूयस्तत्तदेकान्यसेद शिरोवदनकृद्गुह्यपाददेशे यथाक्रमाद ऊर्ध्व प्राक् दक्षिणोदीच्य पश्चिमेषु मुखेषु च तथ प्रविण्यसे द्वि द्वानष्टत्रिंशत्कलास्तनौ ईशानाद्या ऋच सम्य गङ्गुलीषु अङ्गुष्ठादिकनिष्ठान्धं न्यसे देशिकसत्तमः मूर्धास्य हृदयाम्भोज गुह्यपादे दु ताः पुनः वक्त्रे मूर्धादिशून्यस्य भूयोऽङ्गानि प्रकल्पयेत् तारपञ्चकमुच्चार्य सर्वज्ञाय हृदिरिदम् अमृदे तेजो मालिनि तृप्ता येदि पदं पुनः तदं ब्रह्मशिरसे शिरोगम ज्वलितं ततः शिखिं शिखाय परदो नादिबोधाय तच्छिखा वज्रुणे वज्रहस्ताय स्वतंत्राय तनुच्छदं सौं सौं हौमिति संभाश्य परदोतों गुह्यशक्तये नेत्रमुक्तं श्रीपश्युंहुं पठं ते नेत्रं शक्तये अस्त्रमुक्तं षडङ्कानि कुर्यादेवं समाहितः पूर्वदक्षिणपश्चात्प्राक् सौम्यमध्येषु पञ्चसु वक्त्रेषु पञ्च विन्यसेदीशानस्य कदाक्रमाद ईशानसर्वविद्यानां शशिनी प्रथमा कदा ईश्वरसर्वभूतानां मङ्गला तदनन्तरं ब्रह्माधिपदिः शब्दान्ते ब्रह्मणोऽधिपदिः पुनः ब्रह्मेष्ठदा तृतीया स्यात् शिवो मे अस्तु तत्परा मरीचिकथिता विप्रचतुर्थी च सदा शिवे अंशु मालिन्यत परा प्रणवाद्या नमोऽन्विताः पूर्वपश्चिमयाम्योदग्वक्त्रेषु तदनन्तरं सतस्रो विन्यसेन्मन्त्री पुरुषस्य कलाक्रमाद आद्यात्पुरुषा यदि विद्महे शान्तिरीरिता महादेवाय शब्दान्ते धीमहि स्यात् ततः परं विद्या द्वितीया कथिता तन्नो रुद्रः पदं तदः प्रदिष्ठा कथिता पश्चात् तृतीया स्यात् प्रचोदयाद निवृत्तिस्तत्परा सर्वा प्राणवाद्या नमोऽन्विदा हृदि चां सद्वयेनाभिकुक्षौ पृष्ठे ध वक्षसि अधोरसि कला न्यसे दष्टौ मन्त्री यथा विधि अघोरेभ्यस्तथा पूर्वमीरिदा प्रथमा कला अधोरेभ्य इत्यन्ते मोहा स्यात् तदनन्तरम् अघोरान्ते क्षमा पश्चात्तृतीया परिकीर्तिता कोरस्तरेभ्यो निद्रा सर्वतत्परा व्याधिस्तु पञ्चमी प्रोक्ता सर्वेभ्यस्तदनन्तरम् मृत्युर्निगदिता षष्टी नमस्ते अस्तु तत्परम् क्षुदास्य सप्तमी रुद्ररूपेभ्यः कथिता तृषा अष्टमी कथिता ये दा ध्रुवाद्या नमः गुह्य युग्मोरु युग्मेषु जानुजं का स्फिजोः पुनः कट्यां पाश्वद्वये वाम कलान्यस्ये त्रयोदश प्रथमा वामदेवाय नमो दे स्यादृजा कला स्यात् नमो रक्षा द्वितीया कल कामा पञ्चमी स्यात् तदो विकरणाय च नमः संयमनी षष्टी बलक्रिया सप्तमिष्ठा कला विकरणाय नमो वृद्धित्वष्टमी स्यात् बलान्दे कला पश्चात् प्रमथनायान्दे नमो रात्रिरुदीरिता सर्वभूतदमनाय नमोन्दे ब्राह्मणी कला नमोन्दे मोहिनी प्रोक्ता मन्त्रज्ञैर्द्वादशी कला मनोन्मन्यै नमः ज्वर प्रोक्ता त्रयोदशी प्रणवाद्याश्च दुभ्यन्ता नमोन्तास्तु प्रकर्ति पादोस्तन न सासु मूर्ध बाहुयुगे न्यषेद सद जाद भवा मंध्र कलाक्रम सद जातम प्रपद्यामी सिद्धि सै प्रथमा कला सद जाताय वैभू नम भवेद्युतिस्तृतीया स्याद भवे तदनन्तरं लक्ष्मी चतुर्थी कथिता तदोनादि भवे पदं मेधा स्यात् पञ्चमी प्रोक्ता कला भूयो भव स्व मां उत्पवायनमः पश्चात् स्यात् दष्टमी कला प्रणवाद्याश्चदुभ्यन्ता कला सर्वा नमोऽन्विताः अष्टात्रिंशत्कला प्रोक्ता पञ्चब्रह्मपदादिकाः इति विन्यस्तदेहोऽसौ भवे गङ्गाधरस्वयं तदसमाहितो भूत्वाध्याये देवं सदाशिवं सिद पीतासितश्वेद जपाभैः पञ्चभिर्मुखैः अक्षैर्युदं ग्लौ मुकुडं प्रभं शूलं टङ्कं कृपाणं च वज्राग्न्याधिपदीन् करैः दधानं भूषणोद्दीप्तं खण्डापाशवराभयान् एवं <Sess> ध्यात्वा जपेन्मन्त्रं पञ्चलक्षं मधुप्लुदैः प्रसूनैकरवीरोद्धर्जुयात् तद्दशांशदः पूर्वोद्दिदे यजेत्पीठे मूर्तिं मूलेन कल्पयेद् आवाह्यपूजयेतस्यां मूर्ता मूर्तावा वरणैः सह शक्तिम् धमरु काभ्यीदिवरान् सं ददधं करैः ईशानं प्रीक्षणं शुभ्रमैशान्यं दिशि पूजयेत् परेश्वेणवराभेदेर्दधानं विद्युदुज्ज्वलं चतुर्मुखं तत्पुरुषं त्रिनेत्रं पूर्वतोर्चयेत् अक्षस्रजं वेदभाष्यौ ऋषिं दमरुकं तदः खड्वाङ्गं निशितं शूलं कपालं बिभ्रदम् करैः अञ्जनाभं च दुर्वक्त्रं भीमदन्तं भयावहम् अघोरं प्रीक्षणं याम्ये पूजयेन्मन्द्रवित्तमः कुङ्गुमाभचतुर्वक्त्रं वामदेवं त्रिलोचनं। त्रिलोचनम् हरिणाक्षगुणाभिधिवरहस्तं चतुर्मुखम् बालेन्दुशेखरोल्लासिमुकुडं पश्चिमे यजेद कर्पूरेन्दुनिभं सौम्यं सद्यो त्रिलोचनं। वराभयाक्ष वराभयाक्षवलयकुठारान् दधतं करैः विलासिनं स्मेरवस्त्रं सौम्य सम्यक् समर्चयेद् कोणेश्वर्चेन्निवृत्त्याद्यास्तेजोरूपा कलाक्रमाद विघ्नेश्वरानन्दाद्यान् पत्रेषु परितो यजेद् बाष्ये उमादिकस्ततो बाह्ये शक्राध्यानायुधैः सह इति सम्पूज्य देवे सम्भक्त्या परमयायुधः प्रणीयेनृत्यगीताद्यैस्तोत्रं मायित्रीं मनोहरैः तारो माया मायावियद्बिन्दुमनुस्वरसमन्वितः पञ्चाक्षरसमयुक्तो वसुवर्णो मनुर्मदः पञ्चाक्षरोक्तवत्कुर्यादङ्गन्या साधिकम्बुधः सिन्दूराभं लत्नमुकुटं चन्द्रमौलिनं दिव्यभूषाङ्गरागं च नागयज्ञोपवीदिनम् वामोरुस्तप्रियो रोजन्यस्तहस्तं च बिभ्रदं भयं ध्यायेत् सर्वेश्वरं शिवम् अष्टलक्षं जपेन्मन्त्रं तत्सहस्रं कृतान्वितैः पायसैर्जुहुयात्पीठे मूर्तिं सङ्कल्प्य मूलतः अङ्गैरावरणं पूर्वमनन्ताद्यैरनन्तरम् उमादिभिस्समुद्दिष्टं तृतीयं लोकनायकैः चतुर्थं पञ्चमं तेषामायुधै परिकीर्तितं एवं प्रतिदिनं देवं पूजयेत् साधकोत्तमः पुत्रपौत्रादिकां लक्ष्मीम् सम्प्राप्य ह्यत्र मोददे तारस्थिरा सङ्कर्णे सकर्णेन्दु भगृहु सर्गसमन्वितः अक्षरात्मा निगदिदो मन्त्रो मृत्युञ्जयात्मकः ऋषहिक हो लो देव्यादिगायत्री चन्दीरितम् मृत्युञ्जयो महादेवो देवतास्य समीरिदः भृगुणादीर्घयुक्तेन षडङ्गानि समाचरेत् चन्द्रार्कपुद भुग्नेत्रं स्मितास्यं युग्मपद्मगं मुद्रापाश्यनाक्षः लसत्पाणिं शशिप्रभम् भालेन्दुविकलं तु पीयूष प्लुदाङ्गमलङ्कृतं हाराध्यैर्निजकान्त्यादुध्यायेद्विश्वविमोहनं गुणलक्षं जपेन्मन्त्रं तद्दशांशं पुने सुधीः अमृताशकलैशुद्धदुग्धाज्य सामभिप्लुतैः शैव सम्पूजयेत्पीढे मूर्तिं सङ्कल्पमूलतः अङ्गावरणमाराध्यपश्चाल्लोकेश्वरान्यजेद् तदस्त्राणि ततो बाह्ये पूजयेत्साधकोत्तमः जपपूजादिभिसिद्धे मन्त्रेऽस्मिन्मुनिसत्तमः कुर्यात् प्रयोगान् कल्योक्तानभीष्टफलसिद्धये दुग्धसिक्दै सुधा खण्डैर्हुत्वा प्रत्यहमादराद सहस्रमासपर्यन्तं लेभेदायुर्धनं दायुर्धनं सुधान् सुधा वदति तान् पूर्वापयः सप्तद्रव्याणि वारेषु क्रमा दशशतं हुनेद सप्ताधिकान् द्विजान् नित्यं भोजयेन्मधुरान्वितम् ऋद्विभ्यो दक्षिणां दद्यादरुणां गां पयस्विनीं गुरुं सम्प्रीणयेत्पश्चा धनाद्यैर्देवताधिया अनेन विधिना साध्यकृत्या द्रोहज्वरादिभिः विमुक्तसुचिरं जीवे शरदां शतमञ्जसा अभितारे ज्वरे स्तम्भखोरोन्मादे शिरो गदे असाध्यरोगेष्वेडार्तौ मो हेदाहे महाभये होमोऽयं शान्धिप्रोक्तसर्वाभयप्रदायकः द्रव्यैरेदै प्रजुहुयात् त्रिजन्मसु यथाविधिं भोजयन्मधुरैर्भोज्यैर्ब्राह्मणान् वेदपारगान् दीर्घमायुरवाप्नो दिवाञ्छितां विन्ददि श्रियम् एकादशाहुदिर्नित्यम् दूर्वाभिर्जुहुयाद्बुधः अपमृत्युजिदेवस्यादायुरारोग्यवर्धनम् त्रिजन्मसुसुधावल्ली काश्मीरीबकुलोद्भवैः समिध्वरैकृतो कोम सर्वमृत्युगदापहः सिद्धार्थायर्विहितो विहिदोहोमो महा अपामार्ग महाज्वरविनाशनः अपामार्गसमिद्धोम सर्वमयनिषूदनः दक्षिणामूर्तये पूर्वं तुभ्यं पदमनन्तरं वडमूलपदस्यान्ते प्रवदे च निवासिने ध्यानैकनिरताङ्गाय पश्चाद्ब्रूयान्नमः पदम् रुद्राय शम्भवे इतः शक्तिरुद्धोऽयमीजितः षट्त्रिंशदक्षरो मन्त्रसर्वकामफलप्रदः मुनिश्चुकः समुद्दिष्टछन्दोनुष्टु प्रकीर्तितम् देवता दक्षिणामूर्तिर्नाम्ना शम्भुरुदीरितः रशक्ति युधै पूर्वं ह्रीमाद्यं तैश्च मन्त्रजैः षट्षष्ठाष्ठेषु वह्न्यार्नयत् हृदयाद्यङ्गकल्पनं मूर्ध्निभाले धृश्योश्रोत्रे दण्डयुग्मे सनासिके आस्य दोस्सन्धिषु गले स्तनकृन्नाभिमण्डले कट्यां गुह्ये पुनःपादसम्भेश्वर्नान्य सेन्मनोः व्यापकं तारचकृभ्यां कुर्याद्देहे ततः परं हिमाचलतडे रम्यसिद्धिकिन्नरसेविते विविधद्रुमशाखाभिसर्वदो वारितातपे कुसुमद्रुमे शिला विवर निर्गचनिर्चरा निलशीतले गंगना संखे नृत्य ब्रिह कदंबके कूजको किल संखेन मुखरी खुद दिमुखे परस्परविनिर्मुक्तमाच्छर्यमृगसेविते जलजयस्तलजय पुष्पैरामोदिभिरलङ्कृते आद्यै शुकाद्यैर्मुनिभिरजस्रसुखसेविते पुरन्दरमुखैर्देवैर् साङ्गनाद्यैर्विलोकिते वडवृक्षं महोच्छ्रायम् पद्मरागफलोज्जलम् गारुत्मदमयैः पत्रैर्निबिडैरुपशोभितम् नवरत्नमया कल्पैर्लम्बमानैरलङ्कृतम् संसारतापविच्छेदकुशलच्छायमद्भुतं तस्य मूले सुसंक्लृप्तरत्नसिंहासने शुभे आसीनमसिदाकल्पम् शरश्चन्द्रनिभाननम् कैलासाद्रिनिभम् त्र्यक्षम् चन्द्राङ्गिदकपर्दकम् नासाग्रालोकनपरं वीरासन समास्थितम् भद्राटगे जानुस्त जनुस्तकरपल्लवम् कक्षा बद्धभुजङ्गं च सुप्रसन्नं हरं स्मरेद आयुधद्वयसंयुक्त गुणलक्षं जपेन्मनुम् तद्दशांशं तिलै शुद्धैर्जुयाक्षीरसंयुतैः पञ्चाक्षरोदिदे पीठे तद्विधानेन पूजयेद भिक्षाहारो जपेन्मासम् मनुमेनम् जितेन्द्रियः नित्यम् सहस्रमष्टार्धम् परां विन्ददि वाक् श्रियम् त्रिवारम् जप्तमेदेन पयस्तु मनुना पि वेद दक्षिणा मूर्तिं सन्ध्याना शास्त्रव्याख्यानकृद् भवेद प्रणवो हृदयम् भगवदे पदम् ज्ञेयुधं दक्षिणामूर्तिं मह्यं मेधा मुदीरयेद् प्रयच्छ द्वयान्तोऽयं द्वाविंशत्यक्षरो मनुः मुनिश्चदुर्मुखश्चन्दो गायत्री देवतोदिता तारद्धैश्वरैर्दीर्घैः षड्भिरङ्गानि कल्पयेद पदैर्मन्द्रभवैर्वापि ध्यानाद्यं पूर्ववन्मतं लोकितोऽग्र्यासनः सद्यो बिन्दुमान् प्रथमं तदः द्वितीयं वह्निबीजस्ता दीर्घा शान्तिन्दुभूषिता तृतीया लाङ्गली शार्न मन्द्रो बीजत्रयान्विदः नीलखण्डात्मकप्रोक्तो विषद्वयहरः परः हरद्वयं वह्निजाया हृदयं परिकीर्तितं कपर्दिनेपदयुगं शिरो मन्द्र उदाहृदः नीलकण्डाय तद्वन्द्वं शिखामन्द्रोयमीरिदः कालकूटपदस्यान्ते विषभक्षणेयुतम् हुम्फट्कवचमुद्दिष्ठम् नीलकण्ठिन इत्यतः स्वाकान्तमस्त्रमेदानि पञ्चागानि मनोर्विदुः मूर्ध्निकण्ठे हृदम् भोजे क्रमाद्वीजत्रयम् न्यसेद बालार्कायुध वर्चस्कम् जडा जूडेन्दुशोभितम् नागाभूषम् जपवडिम् शूलम् ब्रह्यकपालकम् खड्वाङ्गम् दधतम् दोर्भिस्त्रिनेत्रम् चिन्तयेद्धरम् लक्षत्रयम् जपेन्मन्त्रम् तत् दशांशम् ससर्पिषा हविषा जु हुयात् सम्यक् संस्कृते हव्यवाहने शैवं पीठे देवं नीलकण्ठं समाहितः मृत्युं जय विधानेन विषद्वयविनाशनम् अग्निस्संवर्तकादित्यराणि लौषष्टिबिन्दुमान् चिन्ता मणिरिधिख्याधं बीजं सर्वसमृद्भिदं कश्यपो मुनिराख्यादश्चन्दो नुष्टुबुधा हृतम् अर्धनारीश्वर देवदा जगतां जगदाम्पतिः रेफा दिव्यञ्चनैषष्टिषड्भिक् कुर्यादङ्गानि षट्प्रमाद त्रिनेत्रं नीलमणिभं शूलपाश्यं कपालकं रक्तोत्पलं च हस्ताब्जैर्दधदं चारुभूषणं बाल्येन्दुबद्ध मुकुटमर्धनारीश्वरं स्मरेद एकलक्षं जपेन्मन्त्रं त्रिशतं मधुराप्लुतैः तिलै पुनेज पीठे शैवे गावरणैः सह वृषाद्यैर्मातृभिपश्चाल्लोकपालैस्तदा युधैः प्रासादाद्यं जपेन्मन्द्रमयुधं प्रोगशान्दयेन् स्वाहा वृत्तमिदं बीजं विगलत् भी परमामृतं चन्द्रबिम्बस्थितं मूर्ध्निध्यादम् ष्वेडगदापहम् प्रदिलोमस्वराढ्या च बीजं वह्नि गृहे स्थितं रेफादिव्यञ्जनोल्लास्ये षट्कोणाभिवृतं बहिः भूतार्तस्य स्मृतं मूध्नि भूतमाशु विनाशयेद पीडिताङ्गे स्मृतं शमयदि ध्रुवं प्रणवो हृदयं पश्चान् ञेन्दः पशुपतिः पुनः तरो नमो भूतपदं ततोऽतिपदयेध्रुवं नमो रुद्रायुगलं खङ्गरावणशब्ददः विहरद्विदयं पश्चान्नरीनृत्ययुगं पृथक् श्मशानभस्माचिदान्ते शरण्याय ततः परं खण्डाकपालमालादिधरायेदि पदं पुनः व्याघ्रचर्मपदस्यान्धे परिधानाय तत्परं शशाङ्ककृतशब्दान्ते शेखराय ततः परं कृष्णसर्पपदात्पश्चात् वदेद्यज्ञो बवीरिनि बलयुग्मं चलायुग्ममनिवर्तकपालिनि हनुयुग्मं तदो भूतां स्त्राशयद्वितयं पुनः भूयो मण्डलमध्ये स्यात् कडयुग्मं ततः परं रुद्राङ्गुशेन समयप्रवेशयुगं तदः आवेश्ययुगं पश्चात् चण्डासि पदमीरयेद धाराधिपदिरुद्रोऽयं ज्ञापयत्यग्निसुन्दरी कर्गरावणमन्द्रोऽयं सतत्यूर्धसदाक्षरः भूताधिपतये स्वाहा पूजा मन्द्रोयमीरितः सिद्धमन्द्रोयमुदितो जपादेव प्रसिद्ध्यसि अयुतद्वितीयात्पश्चाद्भुतादिग्रहणे क्षमः मायास्फुरद्वयं भूयप्रस्फुरद्विदयं पुनः खादयद्विदयं वर्म पटन्तः समुदीरिदः एक पञ्चाश धर्नोयमघोरास्त्रं महामनुः अघोरोऽस्य नु प्रोक्तस्त्रिवृच्छन्दम् उदाहृदम् अखोररुद्रः सन्धिष्टो देवता मन्दनायकः हृदयं पञ्चभिप्रोक्तम् शिरषड्भिरुदाहृदम् शिखा दशभिराख्यादा नवभिकवचं मतम् वसुवर्णस्मृतं नेत्रम् दशार्णैरात्रमीरितं मूर्ध्नि नेत्रास्य कण्ठेषु हृन्नाभ्या मुरुशुक्रमाद जानो जङ्घापगद्वन्द्वे रुद्रभिन्नाक्षरैर्ण्यसेद पञ्च षट् काष्ठवेदाङ्ग् दि पञ्च पञ्चषट्काष्ठवेदाङ्गविद्यग्धिरसलोचनैः श्यामं त्रिनेत्रं सपार्ढ्यं रक्तवस्त्राङ्गराङ्गकं नानाशस्त्रधरं ध्याये न सदाशिवं भूतवेतालपादीनां क्षयोऽयं निग्रहे मनुः धरासंस्तो तारो वान्दोधरासंस्थो वामनेत्रेन्दुभूषितः पाशिबकर्णनेत्रवर्मास्त्रान्तः षडक्षरः मनुः पाशुपदास्त्राख्यो ग्रहक्षुद्रनिवारणः षड्भेर्वर्णायि षडङ्गानि कुं पडं तै सजादिभिः मध्याह्नार्कप्रभम् भीमं त्र्याक्षम् पन्नगभूषणं नानाशस्त्रं चतुर्वक्त्रम् स्मरेत पशुपतिम् हरम् वर्णलक्षम् जपेन्मन्त्रम् जुहुया तद् दशांशदः गव्येन सर्पिषा मन्त्रो संस्कृतेहव्यवाघने शैवे यजेदङ्गमातृलोकेश्वरायुधैः अनेन मन्त्रितन्तोऽयं भूदग्रस्त क्षिपेद् सद्यः समुञ्चदिक्रन्दान् महामन्द्रप्रभावदः अनेन मन्द्रिदान् बाणान् विसृजेद्युधियो नरः जयेत्क्षणेन निखिलान् चत्रून्पार्थ इवापरः वर्णान्तिमो बिन्दुयुधः क्षेत्रपालाय हृन्मनुः ताराद्यो वसुवर्णोऽयं क्षेत्रपालस्य कीर्तितः षड् दीर्घयुक्तबीजेन षडङ्गम्यस्य चिन्तयेद् नीलाचलाभं दिग्वास्त्रं सर्पभूषं त्रिलोचनं पिङ्गोर्ध्वकेशान् दधतं कपालं च गदां स्मरेद लक्षमेघं जपेन्मन्त्रं जुहूयात् तद्दशांशदः चरुणाकृदशिकृन ततः क्षेत् े समर्चयेद् धर्मादिकल्पिते पीठे साङ्गावरणमादरात् तस्मै सपरिवाराय बलिमेधेन निर्भरेद पूर्वमेकिद्वयं पश्चाद्विद्विषं पुरुषं द्वयं भञ्जयद्विदयं भूयो नर्तयद्विदयं पुनः तदो विघ्नपदद्वन्द्वं महाभैरवतः परं क्षेत्रपालबलिं गृष्णद्वयं पावक सुन्दरी बलिमन्द्रोऽयमाख्यादसर्वकामफलप्रदः सोपदेश्यं बृहत्पिण्ठे कृत्वा रात्रिषु साधकः स्मृत्वा यथोक्तम् क्षेत्रे तस्य हस्ते बलिं हरेद् बलिनानेन सन्तुष्टः क्षेत्रपालः प्रयच्छति कान्तिं मेधां बलायोग्यं ते जःपुष्टिं यश्रियम् उद्धरेद्बडुकं गेन्द मापदुद्धारणं तथा कुरुद्वयं ततः पश्चाद्वटुकं ज्ञेन्दमुच्चरेद शक्तिरुद्धो ध्रुवादिश्च द्वाविंशत्यक्षरो मनुः द्विचतुस्सप्तवेदाब्धिचन्द्रार्णैरङ्कं मनोः बालं स्फटिकसङ्काश्यं तल्लोलसिताननम् दिव्याकल्पय प्रदीप्ताङ्गं त्र्यक्षं दण्डत्रिशूलिनं सुप्रसन्नं स्मरेद्भक्त्या भक्तानामभयङ्करं वर्णलक्षं जपेन्मन्त्रं हविष्याशी जितेन्द्रियः तद्दशांशं प्रजुः या किलैर् प्रजुः या मधुरसंयुतैः धर्मादिकल्पिते पीडे पङ्कजे चादिशोभने षट्कोणान्तस्त्रिकोणस्तव्योमपङ्कजसंयुते वटुकं पूजये देवं साङ्गावरणकं क्रमाद शत्रुपक्षस्य रुधिरम् पिशिं दिने दिने भक्षयस्व गणैः सार्धं सारमेयसमन्वितः बलिमन्त्रोऽयमाख्यादशत्रुनाम्ना विदर्भिदः अनेन बलिना हृष्टो बडुकः परसैन्यकं चित्वा गणेभ्यो विभजेदामिशं क्रुद्धमानसः अङ्गशो वह्निशिखरो लान्तदान्तः फटन्तस् चण्डमन्त्रोऽयं त्रिवर्णात्मा समीरिदः अस्य त्रितो मुनिप्रोक्तश्चन्दो नुष्टुबुधा हृदम् चण्डेश्वो देवता प्रोक्ता, प्रोक्ता वक्ष्यन्तेऽङ्कप्रकल्पनं हृदयं दीप्तफट्प्रोक्तम् ज्वलफट् शिरयीरितं शिखा ज्वालिनि फट्प्रोक्ता वफ फट्कवचं फलभट् नेत्रमाख्यातं सर्वज्ञुवानि निभट्परं विन्यस्यैवं षडङ्गानि ततो देवं विचिन्तयेद चण्डेश्वरं रक्त तनुं त्र्यक्षं रक्ताम्बरावृतं दधतं चत्रिशूलाक्ष मालाडं ककमण्डलून् वर्णलक्षं जपेन्मन्त्रं होमं कुर्याद् दशांशदः मधुरत्रयसंयुक्तैर्विशुद्धै स्थिरतण्डुलैः पञ्चाक्षरोदिदे पीठे मूर्तिं मूलेन कल्पयेत् कूर्मेशो बिन्दुसंयुक्तस्तदश्चण्डेश्वराय च हृदयमनुराख्या दश्चण्डेशस्य प्रभूजने अङ्गैर्मातृभिराश्येषर्वज्राद्यैरावृतिर्भवेत् शैवमन्त्रेषु निष्णातश्चण्डेश्वरमनुं जपेद सर्वान् कामानवाप्नोति परत्रेखजनन्ददि शृणुनारदवक्ष्यामि दिव्यं माहेश्वरं स्तवं यस्य पाठेन पूजायां सिद्ध्यन्ति मनवोऽखिलाः धराग्नि मरु व्योममखेशेन्द्वर्कमूर्तये सर्वभूतान्तरस्थाय शङ्कराय नमो नमः श्रुत्यन्तकृतवासाय श्रुतये श्रुतिजन्मने अदीन्द्रियाय महसे शाश्वताय नमो नमः स्थूलसूक्ष्मविभागाभ्यामनिर्देश्याय शम्भवे भवाय भव सम्भोधदुःखभद्रे नमो नमः तर्कमार्गादिदूराय तपःसाम्फलदायिने वदान्याय सर्वज्ञाय नमो नमः आदिमध्यान्धशून्याय निरस्ताशेषदये योगिध्येयाय महदे निर्गुणाय नमो नमः विश्वात्मने विविक्ताय विलसच्चन्द्रमौलये कन्दर्पदर्पणासाय कालकन्द्रे नमो नमः विश्वासनाय विहर विषस्कन्दमुपेयुषे सरिद्धामसमाबद्धकपदाय नमो नमः शुद्धाय शुद्धभावा सुध्धा शुद्धानाम् अन्तरात्मने पुरान्तकाय पूर्णाय पुण्यनाम्नो नमो नमः भक्ताय निजभक्तानां भुक्तिमुक्तिप्रदायिने विवाससे निवासाय विश्वेषां पदये नमः त्रिमूर्तिमूलभूताय त्रिनेत्राय त्रिशूलिने त्रिधाम्नाधामरूपाय जन्मदाय नमो नमः देवासुर शिरोरत्न किरीडारुणिताङ्घ्रये कान्ताय निजकान्दायै दत्तार्थाय नमो नमः यदस्तोत्रं महेशस्य प्रोक्तं विप्र शिवसान्निध्यदं विप्रसर्पतन्त्रप्रकाशकम् यदत्ते सुमखत्त्रें सर्वदेवप्रकाशकं लोकाभिलाष सम्पूर्तिप्रिया साधनसङ्गतं ये दु सामान्यतप्रोक्तास्तन्त्रेऽस्मिन् मनवेद्विजः ते तु लोकोपकाराय ज्ञातव्यासिद्धिदायकाः विशेषदो वैष्णवाये मन्त्रा सर्वोत्तमोत्तमाः तदेव साधनीयास्य वर्गफलादये राममन्त्रा कृष्णमन्त्रा साङ्गस्ये श्रीमन्त्रकाः साकृ सौराश्च काणेशा प्रोक्ता शुभावहाः तेषु स्वात्मप्रकाशाय भजन्मुक्तिफलप्रदान्यते सर्वमाख्यातं यत्त्वयाभ्यर्थितं मुने देवताराधनभक्त्या किं भूय श्रोतुमिच्छसि इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे महेश मन्द्रकथनं नामैकनवतितमोऽध्यायः इति तृतीयः पादः ओम्